गणेशपुराणं क्रीडाखण्डम् अध्यायम् इलवन् कश्यप उवाच अयं तु मद्गृहे कोऽपि हयवतीर्नः परः पुमान् अनिर्वाच्य गुणो हीनो गुणैस्त्रिभिरनावृतः यदद्विरोधं ह्य स पदभ्रंश तामियाद ये दभुतकर्मा शुणु मे कोरा पंदुमेनं समागदा साहदातेन बालेन पतिताहि तलता हिद्वना उधताशुंधु दैत परम दुर्मद सुकरूपधरा वेनं निहन्तुं पक्षे धृत्वा पोधितौ तौ शिलायां गदजीवितौ निपेततुर्धरा पृष्ठे विशालौ सर्वदृग्गदौ तथैव स्य स्पर्शमात्रेण गदो दिव्यशरीरताम् आहाहूहूतुम्बुरूणां सत्वसंशोधनाय सः जहार पञ्चायतनं पञ्चधा स्वयमप्यभूद सर्वेषां च समक्षं वो निहदा पञ्चराक्षसाः एवं मुनिव च श्रुत्वा बभाण बलवृत्रः इन्द्र उवाच न दृष्टोऽस्य गुणोत्कर्षस्तावन्मान्यो भवेत्कथं क उवाच तदोदिदेशवायुंस न यैनं व्योममण्डलं तस्यानुज्ञापदं वायु युगान्तसदृश्योवौ आन्दोलयन् सर्वलोकम् भ्रामयन् कुधरान्भृशम् अकालप्रलय किन्नुप्रारब्धो लोकनाशनः इत्येवम्भृशसंविघ्ना ऋषयश्च च कम्पिरे बडुम् नेदु समायादो महाशक्त्या प्रभञ्चनः न चासनं त्वस्य चलं रोम वा समपद्यत भग्ने वा यौधु सम्प्राह सुष्माणं पाकशासनः दहैनं त्वं बडुं शीघ्रं द्रष्टव्या शक्ति तदाज्ञां शिरसा गृह्य जगाम तमुषर्बुधः निर्दहन्निवत्रीं लोकान् प्रलयानलसन्निभः भस्मीकर्तुं द्रुमान् सर्वान् शोषयन् सर्वसागरान् तं दहन्तं जनान् सर्वान् दृष्ट्वा कश्यपनन्दनः तत्क्षणादगिलद्रोगी भेषजं गुडिकामिव मिलिते तादृशे वह्नौ क्रोध संरक्तलोचनः सहस्रलोचनो लोकां लोचनैः सर्वलोचनैः तावदर्शतं तत्र सहस्राधिकलोचनम् असंज्ञ शीर्षमुकुटमनन्दश्रोत्रसंयुदम् अनन्दहस्तचरणमनन्दोदारविक्रमम् शशिसूर्याग्निनयनम् शिखाव्याप्तनभस्तलम् सप्तपादालचरणम् सप्तलोकैकमस्तकम् असङ्ख्यसूर्यसङ्काशमसङ्ख्येन्द्र सुसेवितम् असङ्ख्यकेशसंयुक्तं नानाब्रह्माण्डरोमकम् आमूलाग्रा यथा वृक्षे भवद्यौदुम्बराणि वै औदुम्बरे वामशकः सङ्ख्यातीता भवन्ति तथैवैकैकरोमाञ्जं सङ्ख्यातीताण्ठसंयुधं पश्यांस्तत्रैवैकतरं भ्रान्तशक्रो त्रैलोक्यं पश्या सचराचरम् अरण्यकदलीकोशपत्रे पत्रे पत्रे यथा यथाफलम् असङ्ख्यादं जगत्तत्र पश्यति स्म शचीपतिः बभ्रामभ्रान्तचित्तोऽसौ नालभन्निर्गमं तदः तदो न नाम मूर्ध्ना स वेदं भग्नमनोरथः प्रार्थयामास देवेशम् तदा शक्रो गजाननं शक्र उवाजा भूभारहरणार्थं यो जाधकश्यप नन्दनः अचिन्त्यो महिमायस्य किमु वर्ण्यो भवेन्मम निर्गमं देहि देवेश कुक्षेरत्यन्तविस्तराद अदृष्ट पाराद्वर्षाणि द्वादश भ्रमदा मया तव कुक्षौ मया दर्शि भुवनानि च दुर्दश स्थाने स्थाने विभक्तानि प्रति रोमाञ्चमेकराड समष्टिव्यष्टिरूपाणि महाविस्तारवन्ति दृष्टानि तव रूपाणि सुसौम्यानीतराणि च अद्भुतान्यप्यसङ्ख्यानि वक्त्राणि नयनानि दृष्ट्वा दुर्दर्शरूपाणि जगत्क्षोभकराणि ते दैत्यदानवपूर्णानि सुरमानवन्ति च यक्ष रक्षपिशाचादि चतुराकरवन्ति च विकराल महोरूपमुपसंहर विश्वकृद गतो मोहं स्मृतिर्लब्धा प्रसादान्निखिलेश्वर कायेन मनसा बुद्ध्यावाच त्वां शरणं गतः प्राकृतं दर्शय विभो रूपं ते भक्तवत्सल क एवं यावत् प्रार्थयदे स्वात्मानं तावदेव सः सभामध्यकदं तं च ददर्श ब्रह्मचारिणं पश्यतां सर्वलोकानां साष्ठाङ्गं प्रणनामदम् अधिविस्मितचित्तोऽसौ लज्जाकर्षसमन्वितः शृण्वस्तु सर्वदेवेषु नुनावब्रह्मचारिणं जातं मुनिगृहे शान्तं क्रीडामानुषरूपिणम् शक्र उवाच जानेन त्वानन्दशक्तिं परेशं विश्वात्मानं विश्वबीजं गुणेशं विश्वाभासं विश्ववन्द्यं त्रिसत्यम् त्रेधाभूतं जन्मरक्षार्तिहेतुम् एकं नित्यं सच्चिदानन्दरूपं सर्वाध्यक्षं कारणादिदमीषं चेष्टाहेतुं स्थावरे जङ्गमे च वाञ्छापूरं सर्वगं त्वाभिवन्दे सर्वेषां सर्वविद्यानिधानं सर्वात्मानं सर्वबोधावभासम् सर्वातीतं वाङ्मनो गोचरं त्वां सर्वावासं सर्वविज्ञानमीडे क उवाच एवं स्तुत्वा च न त्वाच सम्पूज्य स्वाङ्कुशं ददौ कल्पवृक्षं च दास्यौ द्वे विनायक इति स्फुटं चकारनामशक्रोधस्मरणात् सर्वसिद्धिदम् जय शब्दैर्नमः शब्दैर्वाद्यशब्दैरनेकधा गन्धर्वगीतनिनदैरप्सरो नृत्य निःस्वनैः व्याप्तमासीत् पुष्पवर्षंस्तदा व्योम धरातलं प्रतिकूलवहानद्य आसन्पूर्व वः शुभाः प्रसन्नमासीत् दिक्चक्रं ववुर्वादा सुखावहाः प्रदक्षिणार्चिषशान्ता आसन् सर्वत्र वह्नयः तद प्रसन्नशक्राय ददावभयमेकराट क्वापि तव शक्ररणाजिरे पठ स्तोत्र मेधत्वं त्रिसन्ध्यं भक्तितत्परः अन्योऽपि य पठेद्भक्त्या श्लोकत्रयमिदं नरः स सर्वानाप्नुयामान् सर्वत्र विजयी भवेद् तदशक्रो नमस्कृत्य वरं प्राप्य शुभावहं तद् सर्वे नमस्कृत्य स्वम् स्थानं थनम युर्मदा श्री गणेशपुराणे क्रीड़ाखंडे बालचरिते एक